मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टि टु लोभासुरशान्तिवर्णनं श्रीगणेशाय नमः मुद्गल उवाच शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्यतं तथेति प्रतिपाद्यैव सकविःशरणं ययौ नगरप्रान्तभागे तच्छस्त्रं गजाननस्य च समीपसंस्थाञ्ज्वालदानवादीन्समास्थितं तं प्रणम्य महादैत्यो लोभपरशुमुत्तमं कृताञ्जलिप्रत्युष्ठाव भयभेदः समन्तदः लोभासुर उवाच नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे नानाशस्त्राणि शस्त्रे च त्वदाधाराणि ते नमः प्रलयानलसङ्काशं स्वरूपं धरदे नमः अनन्दवीर्ययुक्ताय भास्करामिदतेजसे दृश्यादृश्यमयायैव सर्वदर्पहरायते धर्मसंस्थापनार्थाय नानारूपधराय च साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकं तदेव त्वमहाशस्त्रं किं ते स्तौमि नमो नमः शरणागतबालाय सदा स्वानन्दसंस्थितः रक्षमाम्भयभिदम्भोः परशोते नमो नमः एवं लोभासुरं संस्तुवन्दं तं तु महाबलं काव्येन शस्त्रराजं तच्छान्दिरूपधरं बभौ गत्वा गजाननस्यैव हस्तगं तद् बभूवः लोभासुरः स शुक्रेणाययौ विघ्नेश्वरं ततः समागतं महादैत्यं दृष्ट्वा देवर्षयो भवन् विस्मिताकर्षिता सर्वे परस्परमुखे क्षणाः गजाननं प्रणम्यैव लोभा सुरः काव्येन पूजयामास भक्तियुक्तो विशेषतः प्रणम्य पुनर्दैत्यकृत्वा पुनर्दैत्य कृत्वा करपुडं प्रभुं गजाननं भावसंयुक्तस्तुष्टावप्रहर्षितः लोभासुर उच नमस्ते नाना गजवक्तायना सिद्धिप्रदिने बुद्धि चालक वेशाय हेरंभायनंदवासिने महात्मनेघ्नेशा नमो नमहा, सदा वासिने महात्मने परात नमो नम सुसुर प्रियक सुरा सुरा मयायते, लोभयुक्ताशनाय नमो नम देना पालकाय दैत्यां रक्षा तेषा दर्पन्द्रे वै गणेशा नमो नम लम्बोत्तराय देवेश दैत्ये च मूषकध्वज अनादये च सर्वेषामादिरूपाय ते नमः आदिमध्यान्धहीनायादिमध्यान्धस्वरूपिणे ब्रह्मेशाय महेशानां पालकाय नमो नमः ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते शान्तिनां शान्तिरूपाय नमो योगाय वै नमः एकदन्दाय सर्वे वक्रतुण्डाय ते नमः महोदराय पूर्णाय पूर्णानन्दाय ते नमः सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः बीजरूपं गणाधीश जगदाम् ब्रह्मणाम् गजं चिह्नेन लभ्य गजानन नमोऽस्तु दे बोधहीनाय रूपाय सदा साङ्ख्यमयाय च विदेहाय नमस्तुभ्यम् प्रत्यक्षम् रूपधारिणे यं स्तोदुम्न समर्थाश्च वेदा योगिशिवादयः तं किं स्तौमि गणाधीश नमस्ते वरदो भव त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो तेन मे भयदो भूत्वा रक्षदा संविशेषदः येवं एवं स्तुत्वा महालोभप्रणनामगजाननं तमुवाच दया सिन्धुर्भक्तं भक्तप्रपालकः गजानन उवाच वरं वृणुमहालोभ ददामि मनसीप्सिदं प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेद पठतः शृण्वतश्चैव लोभतं नैव पीडय पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् अन्ते स्वानन्दलोके स भविष्यति यस्तौदि मामनेनैव समे मान्यो न सदा सुरस्वभावेन हीनसोऽपि भविष्यति त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः शरणागतमेवं तु दानवोत्तमहन्विना गजाननव च लोभो हर्षसमन्वितः उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकं लोभासुर उवाच गजाननवरमेत्वं देहि सम्पूर्णदायक तव भक्तिस्वरूपं च गाणपत्यप्रियात्मदां स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीं कार्यम् कथय सर्वेश करिष्यामि गजानन गजानन उवाच मदीया भक्तिराद्यादे भविष्यति महामदे गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठमे मे भक्तिसंयुधः यत्र मे स्मरणं नास्ति पूजनं वासुरोत्तमादौ कर्मादिषु प्राज्ञत्समाहरनित्यदा यथा देवाः प्रिया मे तु तथा त्वमपि लोभक मम भक्ताश्च ये दैत्यतान् रक्षस्वविशेषतः मदीयभक्तिरूपं लोभ लोभवर्धयतेषु वै एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननं काव्येन सहितसोऽपि स्वपुरं प्रययौ प्रभो ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशान्धिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ओम